श्रीहरये नमः अथ पञ्चद्रिंशोऽध्यायः श्रीसुख उवाच गोप्यकृष्णे वनं याते तमनुद्रुतचेतसः कृष्णलीला प्रगायन्त्यो निन्योर्दुःख्येन वासरान् गोप्यवूचो वामभाकृत वामकपोलो वल्गितप्रधरार्पितवेणु कोमलाङ्गुलिपीराश्रितमार्गं गोप्यगीरयति व्योमयानवनितासखसिद्धै विस्मितास्तदुपधार्यसलज्जाः काममार्गणसमर्पितचित्ता कश्मलं ययु अपश्मृतनीव्यः हन्तचित्रमभला शृणुते धं हारकासवुरसिस्त्रविद्युनन्दसूनुरयम् आर्तजानानां नर्मतो यर्हि कूजितवेणुः बृन्दसो व्रजवृषामृगगावो वेणुवाद्य कृतचेतस आराद दन्तदष्टकपला धृतकर्णा निदृता लिखितचित्रमिवासन् बर्हिणस्तभगधातु पलाशय पद्ममल्लपरिबर्ह्य विडम्बहा गर्हि तर् भग्नगत सरितो वै तत्पाबुजराजोलहतीयमीवा बहुपुण्य प्रेम वेपी तभुचास्ति मिताप अनुचरै समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः वनचरो गिरितटेषु चरन्ति वेणुना आह्वयदि कासयधाहि वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पलाढ्याः प्रणतभारविटपा मधुधारा ृष्टतनवसृजुस्म दर्शनीयतिलको वनमाला दिव्यगन्धतुलसी मधुमत्तैः अरि अलिकुरलै अलिकुलैरलघुगीतमभीष्टम् आद्रियर्हि सन्धितवेणुः सरसिसारसहंसविहङ्गाश्चारु गीत कृतचेतसयेत्य हरिमुपासतते यथचित्ता हन्तमि हरिमुपासतते यथचित्ता हन्तमीलितदृशो धृतमौनाः सखबलस्रघवतं सविलाससानुशोषितिभ्रुतो व्रजदेव्यः हर्षयन् यर्हि वेणु रवेण जता जात हर्षवपरं भति विश्वम् उपरं भति विश्वं, विश्वं। महदधिक्रमणसङ्कितचेतामन्दमन्दम् मंदा अनुगर्जति मेघः सुकृतमभ्यवर्षत् सुमनोभिश्चायया च विदधप्रतपत्रं विवितगोपचरणेषु विदग् वेणुवाद्य निज शिशाः तव सुतस्तर बिम्बे धत्त वेणुरयनस्वर जाती सुरे सा आनत गन्धर चित्ता कस्मलं युयुरनिश्चित ङ्कुश विचित्रललामैः व्रजभुवः समयन्कुरोधं वर्ष्मदुर्यगतिगीडितवेणुः व्रजति तेन वयं भववेगाः कुजगतिं गमिता न विधाम वा मणिधरक्वचिता गणयन्घामालयाधयितगन्ततुलस्याघान् प्रणयिनो प्रणयिनोऽनुसरस्य गदांसे प्रक्षिपन् भुजमघायत यत्र क्वणित क्वणितवेणुरवञ्चितचित्ता कृष्णम् अन्वसत कृष्णगृहिण्यः गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहासाः कुन्दधामकृतकौतुकवेषो गोपगोधनव्रतो यमुनायां नन्दसूनुरनगे तव वत्सो नर्मदः प्रणयिनां विजहार मन्दवायुरुपवात्यणुनालं मालयन्मलयजस्पर्शेन वन्दिनस्तम्बुवधेव गणाये वाद्यगीतबलिभिः परिवबृहोत् वत्सलो व्रज यदगत्रो वन्द्यमान वन्द्यमानचरणः पतिर्वृद्धैः कृत्सन कोदनम् उपोक्य दीनां ते गीतवेणु अनुक्रीडितम् उत्सवं श्रमचारुपिदृशीनामुन्नयन् कुररज्जुरितश्र तित्सयैति सुहृदासिषयेष देवकी जठर भूरुढुराजः मदविगूर्णितलोचन ईशनानतस्व सुकृदां वनमालीं बदरपाण्डुवतनो मृदुघण्टं मण्डयन् मुदितवक्त्रम् उपयाति दुरन्तं मोचयन् व्रज गवां दिनतापम् श्रीशुक उवाच एवं ब्रजस्त्रियो राजन् कृष्णलीलानुगायती हें रेमि रेहत्स्तु तच्चित्तास्तन्मनस्कामकोदया इति श्रीमद्भगवते महापुराणे दशमस्कन्ते पूर्वार्धे बृन्दावनक्रीडायां गोपिकायुकळगीतं नाम पञ्चत्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहराज की जय